शैलशृङ्गेषु रम्येषु देवतायतनेषु च मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा कृत्वा च परमं रूपं सर्वाभरणभूषिता संजल्पन्ती सुमधुरं रमयामास पाण्डवं तथैव वनदुर्गेषु पुष्पितद्रुमवल्लिषु सरस्सु रमणीयेषु च नदीद्वीपप्रदेशेषु वैदूर्यसिकतासु च सुतीर्थवनतोयासु तथा गिरिनदीषु च काननेषु विचित्रेषु पुष्पितद्रुमवल्लिषु हिमवद्गिरिकुञ्जेषु गुहासु विविधासु प्रफुल्लशतपत्रेषु सरस्वमलवारिषु सागरस्य प्रदेशेषु मणिहेमचितेषु पल्वलेषु च रम्येषु देवारण्येषु पुण्येषु तथा पर्वतसानुषु गुह्यकानां निवासेषु तापसायतनेषु च सर्वर्तुफलरम्येषु मानसेषु सरस्सु च बिभ्रती परमं रूपं रमयामास पाण्डवं रमयन्ती तथा भीमं तत्र तत्र मनोज प्रजज्ञे राक्षसीपुत्रं महाबलं। विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणं भीमनादं सुतां रोष्ठं तीक्ष्णदंष्ट्रं महाबलं महेश्वासं महावीर्यं महासत्त्वं महाभुजं महाजवं महाकायं महामायमरिन्दमं दीर्घघोणं महोरस्तं विकटोद्बद्धपिण्डिकम् अमानुषं मानुषजं भीमवेगं महाबलं यः पिशाचानतीत्यान्यान् बभूवातीव राक्षसान् बालोऽपि यौवनं प्राप्तो मानुषेषु विशाम्पते सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बलि